श्रीहरये नमः चतुर्थस्कन्तः अथ प्रथमोऽध्यायः मैत्रेय उवाच मनोऽस्तु शतरूपायां तिस्रकन्याश्च जज्ञिरे आकुतिर्देवहूतिश्च प्रसृतिरिति विश्रुताः आकूतिं रुचये प्राधबी भ्रातृमतीं नृपः पुत्रिका धर्ममाश्रित्य सतरूपानुमोदितः प्रजावति भगवान् रुचिस्तस्यामजीजन मिथुनं ब्रह्मवर्चस्वी परमेण समाधिना यस्तयो पुरुषसाक्षात् विष्णोर्यज्ञस्वरूपध्रे या स्त्री दक्षिणो भूते अंसभूता न पायिनी आनिं स्वगृहं बुद्र्या रोषिचं सायं भुवो मुदा युक्तो रुचिर्जग्राहदक्षिणा तां कामयानां भगवान् उवाहयजुषां पथिः तुष्टायां दोषमापन्नो जनयद्वादशात्मजा तोषप्रतोषसंतोषो सन्तोष भद्रस्सान्तिरीढस्पतेर्यिद्मक्कविर्विभुस्वह्न सुधवो रोचनो द्विषट् दूषिता नाम ते देव आसन् स्वायम्भुभान्तरे यज्ञसुरगणेश्वरः प्रियव्रत उत्तानपाधौ मनुपुत्रौ महौजसौ तत्पुत्रपौत्र न तृणा अनुवृत्तं तदन्तरं भवतो गततो ममः दक्षाय ब्रह्मपुत्राय प्रसूतिं भगवान् मनुः प्रायच्छत्य कृतः सर्गस्त्रिलोक्यां विततो महा या कर्दमसुधा प्रोक्ता नवब्रह्मर्षिपत्न्यः तासां प्रसूतिप्रसवं प्रोश्च्यमानं निभूत कला सूक्ष्मे कश्यपं पूर्णिमानं च यो आपूरितं जगत् पूर्णिमा सुत विरजं विष्पगं च परन्त प देवकुल्यां हरे पाध अत्रे पत्न्यन सुयात्रेन् जज्ञेसूयसुतान् दत्तं दुर्वाससं सोमम् आत्मी सब्रह्मसम्भवान् पितुर अत्रे अत्रेर्दृहे सुरश्रेष्ठा स्थित्यु पत्यन्त हेतवः किञ्चिक्षिकीशवो जात एतत्याख्याहि मे गुरोः मैत्रेय उवाच ब्रह्मणा नोतितसृष्टा अत्रैर्ब्रह्मविधाम्बरः कुलाद्रिं तपसि स्थितः लाशाशोककानने वार्भिस्रवद्भिरुद्गुष्टे निर्विन्ध्याय समन्ततः प्राणायामेन संयमयमनोवर्षसतं मुनिः अधिष्ठधेकपाधेन निर्द्वन्द्वोनिलभोजनः शरणं तं प्रभत्येहं य जगतीश्वरः प्रजामात्मसमां मह्यं प्रविश्चत्विति चिन्तयन्तप्यमानं त्रिभुवनं प्राणायामैदशाग्निनः निर्गतेन मुनेर्मूर्ध्न समीक्ष प्रभवस्त्रयहाप्सरो मुनिगन्धर्व सिद्धविद्यातरोरघेर्विधायमानय श्रमपदं ययुः ततः प्रादुर्भावसंयोग विद्योतिधमना तिष्ठन्नेकपादेन तदर्श विभो दर्षभान् प्रणम्यतण्डवद् भूमौ उपतस्तेर्णाञ्जलिः वृषहंस सुपर्णस्तान् स्वै स्वै चिह्नैश्च चिह्नितान् कृपावलोकेन हसद्वतेनेन उपलम्भितान् तद्रोषि च प्रतिहते निमील्य मुनिरक्षिणीः चेतस्तत्प्रवणं युजन् अस्तावीत् जलीहे। स्लक्षणया सुक्तया वाचा सर्वलोकगरीयसः अद्रिर्वाच विश्वोद्भवस्तिलयेषु विभञ्चमानै मायागुणैरनुयुगं विगृहीतदेहा ते भ्रह्मगविष्णुगिरिसा प्रणतोऽस्म्यहं वा तेभ्य एव भवतां एको एकोमये भगवान् विविधप्रधानै चित्तीकृतप्रजननाय कथं नु यूह्यम् अत्रागतास्तनुभृता मनसोऽपि दूरात् प्रतप्रसीदतमहानिः विस्मयो मे <laughs> मैत्रेय उवाच इति तस्य वचः त्रयस्ते बिबुधर्षभाः प्रत्याहुश्लक्षणया प्रहस्य तं ऋषिं प्रभो देवावूचू यथा क्रस्ते सङ्कल्पो भाव्यं तेनैव नान्यथा सत्सङ्कल्पस्य ते ब्रह्मन् यद्वै ध्यायति ते वयम् अधास्मतं सभूतास्ते आत्मजालोकविश्रुताः भविता रोङ्गभद्रं ते विस्रप्स्यन्ति च ते यसहां कामवरन्द प्रदि जग्मुरेश्वराः सभाजितास्तयो सम्यक् दम्भत्योर्मिषदोस्ततः सोमो भूद्ब्रह्मणों सेन धत्तो विष्णोस्तु योगवेद् भवेत् दुर्वासा शङ्करस्यां सोम् निभोदाङ्गिरसः प्रजाः श्रद्धा द्वङ्गिरसः पत्नी सतश्रोसुत कन्यकाः सिनीवाली कुकुराग चतुर्थ्यनुमतिस्तथा तत्पुत्रा वपरौ आस्तां उतत्यो भगवान् साक्षात् ब्रह्मिष्ठश्च बृहस्पतिः पुलस्त्यो जनयत्पत्न्याम् अगस्त्यं च हबिर्भुवे सौन्यजन्मनि द्राग्ने विश्रवाश्च महातपाः तस्य यक्षपतिर्देव कुबेरस्त्विडविडासुतः रावणकुम्भकर्णश्च तथा यस्यां विभीक्षणः पुलहस्य गतिर्भार्यात्री न कर्मश्रेष्ठं वरीयांसम् सहिष्णुं च महामते क्रेतोरपि क्रिया भार्या वालकिल्यानसूयथा ऋषीन्षष्टिसहस्राणि ज्वलथो ब्रह्म ऊर्जायां जज्ञि वसिष्ठस्य परन्तफ चित्रकेतुप्रधानास्ते सप्त चित्रकेतु सुर रोचिश्च विरजामित्र एव च उल्बणो वसुभृत्यानो द्युमान्सक्त्याधयो परे चित्तिस्वथर्वणः पत्नी लेभे पुत्रं धृतव्रतं तद्यञ्चं मस्वर्शिरसं मृगोर्वं संनिबोधमे भृगुख्यात्यां महाभागपत्न्यां पुत्रा न जी जन धातारं च विधातारं श्रियं भगवत् आयतिं नियतिं चैव सूते मेरुस्तयोरधाद् ताभ्यं तयोरभवतां मृगण्ठप्राणयेव च मार्गण्डेयो मृगण्डस्य प्राणाद्वेदशिरामुनिः कविश्च भार्गवो यश्च भगवानुसनासुतघातगेतमुनयक्ष र् लोकान् सर्गैरभावयन् एष कर्दमधौहित्र सन्तानकथितस्तव शृण्वतः श्रद्दधानस्य पापहरः परः प्रसूतिं मानवीं दक्ष उपयेमे ह्यजात्मजः तस्यां ससर्जदुहित्रो षोटसामललोचनाः त्रयोदशाधाद्धर्माय तैतैकामग्नये विभुः पिधृभ्य एकां तेभ्यो भवायैकाम्बवश्चित् श्रद्धा मैत्री दया सान्त्ये स्तुष्टे पुष्टे क्रियोन्नति हे बुद्धिर्मेतातिक्षा ह्रीर्मूर्तिर्धर्मस्य पत्न्याः श्रद्धासूतशुभं मैत्रे प्रसादमभयं दया योगं क्रियोन्नतिर्दर्भमर्तं बुद्धिरसूयथमेध स्मृतिं दि दीक्षातो क्षेमं क्रीप्रश्रयं सुतं मूर्तिः सर्वगुणोद्बुद्धे नरनारायणा वृषे ययोर्जन्म यथो विश्वम् अभ्यनन्धत् सुनिर्वृतं मानंसि कगुपो वाथा प्रसे दुश्चरितोभ्रयः दिव्यवाद्यन्तदुर्याणि भेदोक्कुसुमवृष्टयः मुनयस्तुष्टुवुस्तुष्टा जघु गन्धर्व किन्नराः नृत्यन्ति स्म आसीत् परममङ्गलं देवा ब्रह्माधय सर्वे उपतस्तु अभीष्टभै देवावूचो व्योमायया विरचितं निजयात्मनिदं के रूपभेतमिव तत् एतेन धर्मसदेन ऋषिर्मूर्तिनाद्य प्रादुश्चकरपुरुषाय नमस्परस्मै सोयं स्थितिव्यधिकरोपसमाय सृष्टान् सत्त्वेन नः सुरगणानुमेय तत् दृश्यातदप्रकरुणेन विलोकनेन यश्रीनिकेतममलं शिपदारविन्दं एवं <laughs> सुरगणैस्ताथ भगवन्तोऽष्टुतो लब्धावलोकैर्ययतुरर्चितौ गन्तमादनं ताविमौ वै भगवतो हरे रंसा विधा पराव्या य च भुवः कृष्णो यदु कुरुद्वहौ स्वाहाभिमानिनश्चाग्ने आत्मजां स्त्री न जीजनत् पापकं पवमानं च सुषीं च हुतभोजनं तेभ्योऽयत् तये वैकोन पञ्चाशत् साकं पितृपितामघैः वैतानिके कर्मणि यन्नामभिर्ब्रह्मवादिभिराग्नेयिष्ठयो यज्ञे निरूप्यन्ते ज्ञस्तु ते अग्निष्वाथा बर्हिषथ सोम्यापितरः आज्यपः साज्ञयो न ज्ञ नस्तेषां पद्नी धाक्षायनी स्वधा तेभ्यो दधारकन्ये द्वे वयुनां धारिणीं स्वथा उभेतब्रह्मवाधिन्यो ज्ञानविज्ञानपारघे भवस्य पत्नी तु सती भवं देवं मनोव्रता आत्मन आत्मनसदृशं पुत्रं नलेबगुणशीलतः पितर्यप्रतिरूपे स्वे भावाय नागसेरुषा अप्रौढैव आत्मनात्मानम् अजहात्योगसंयुधा इति श्रीमद्भगवते महापुराणे पारमहंस्यां संहितायं चतुर्दस्कन्ते विदुरमैत्रेयसंवादे प्रथमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमगराजिके जय